पदिनोरावदि दशकम् सनगातियर्वैकुण्ठप्रवेशम् क्रमेण सर्गे परिवर्दमाने कदा विदिव्या सनगादयस्ते भवत् विलोकाय विकुण्ठलोकम् प्रभेदिरे मारुदमन्दिरे च मनोज्ञनैशेयसगाननाद्यै अनेकवापी मणिमन्दिरैश्च अनोपमम् त्वम् भवतो निकेतम् मुनीश्वरा प्राबुरदीतकक्ष्या भवत् पितृक्षुन् भवनम् विवक्षुन् वास्तौ जयस्तान् विजयोऽभ्यरन्ता तेषाम् च चित्ते पदबा भगोप सर्वम् भवत्प्रेरणयैव भूमन् वैकुण्ठलोकानुचित प्रचेष्टौ कष्टौ युवान् दैत्य गतिम् भजेतम् इति तकैव लक्ष्म्या बहिरम्बुजाक्षा खगेश्वराम् सार्भिता सारुबाहुर् आनन्दयम् स्थानभिराममूर्त्या उपेदमिद्यात कृपम् न्यगाति त्वदीयभृत्यावतकस्य पार्थौ सुरारि वीराबुदिदौ दिदौ त्वौ सन्त्यातमुत्पादनकश्च चेष्टौ यमौ च लोकस्य यमाविवान्यौ हिरण्यपूर्वकशिबुखि नैक परो इति प्रतीत उभौ भवन्नाथमचेषलोकम् वृषान्यरुन्ताम् निजवासनान्दौ तयोर्हिरण्याक्ष महासुरेन्द्रो रणाय तावन् अनवाप्तवैरे सलिले निमज्य सचार गर्वात् ततो जलेशात्सदृशम् भवन्तम् निशम्यपभ्राम कवेश्यम् स्वाम् भक्तैकदृश्यस्य कृपा निदेत्वम् निरन्तिरोगान्मरुतालयेश श्रीकृष्ण गोविन्द हरे मुरारे श्रीनाथनारायण वासुदेव